क्रिया चक्षणम् उमां स पश्यन् ऋजु नैव चक्षुषाः क्रमेच्छितक्रमणाक्रिया सुलभं समिकुशम् अपि क्रिया सुलभं समिकुशं जलान्यपि स्नानविधि क्षमाणि ते तपसि प्रवर्तसे धर्मसाधन विधिप्रयुक् सत्कार ब्रह्मचार्य